तस्य भावम् विदित्वा स नृपतेः कुरु विश्वामित्रस्ततो रक्ष आदिदेश नृपम् प्रति शापात् तस्य तु विप्रर्षेर्विश्वामित्रस्य चाज्ञया राक्षसः किम् करो नाम विवेश नृपतिम् तदा रक्षसातम् गृहीतम् तु विदित्वा मुनिसत्तमः विश्वामित्रोऽप्यपाक्रामत् तस्माद्देशाधरिन्दम ततः सर्वपतिस्तेन वै बलवत्पीडितः प्रार्थनान्व बुध्यत किञ्चन ददर्शाथ कश्चित् राजानम् प्रस्थितम् वनम् अयाचतक्षुधापन्नः स तदा तमुवाचाथ राजर्षिर्द्विजम् मित्रसहस्तदा आस्व ब्रह्मं त्वमत्रैव निवृत्तः प्रतिदास्यामि भोजनम् ते यथेप्सितम् इत्युक्त्वा प्रययौ राजा तस्थौ च द्विजसत्तमः ततो राजा परिक्रम्य यथा कामम् यथा सुखम् निवृत्तोऽन्तः पुरम् पार्थ प्रविवेशमहामनाः ततोर्धरात्र उत्थाय सूदमानाय सत्वरम् उवाच राजा संस्मृत्य ब्राह्मणस्य प्रतिश्रुतम् गच्छा मुश्न्वनोदेशे ब्राह्मणो मतीक्षते अन्नाथी तमंद समां से नोपय